हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे पञ्चदशाधिकशतमः स्वर्गः सीताया चरित्रं सन्देह ताम् अनङ्गीकृत्य श्रीरामेण तां प्रति अन्यत्र कुत्रापि गन्तुमादेशदानं तां तु पार्श्वे स्थितां प्रौहां राम सम्प्रेक्ष्य मैथिलीं ृदयान्तर्गतं भावम् व्याहर्तुम् उपचक्रमे एषा निर्जिता भद्रे शत्रुं जित्वा पौरुषाद्यदनुष्ठेयम् मयैतदुपपादितम् गतोऽभ्यन्तर्ममर्षस्य धर्षणा सम्प्रमार्जिता अवमानश्च शत्रुश्च युगपन्नतो मया अद्य मे पौरुषम् दृष्टम् अद्य मे सफलम् श्रमः अद्य तेन पतिद्योहम् प्रभवाम्यद्य चात्मनः यथं विरहिता नेता चलचित्तेन रक्षसा दैव सम्पादितो दोषो मानुषेण मया जितः सम्प्राप्तम् अवमानम् न प्रमार्जति कत्य पौरषेण महताेत चेतस लमुद्र चे से लंकाया चा मर्दन सफलम तथा श्लाघ्यम अदय कर्म हनुमत युद्ध विक्रमत हित मंत्र सुग्रीवैन सेफलोद परिश्रम विभीषणस्य च तथा सफलोद्य परिश्रमः द्विगुणम् भ्रातरम् त्यक्त्वा यो मां स्वयम् उपस्थितः इत्येवं वदति श्रुत्वा सीतारामस्य तद्वचः मृगीवोत्फुल्ल नैरा बहुवासु परिप्लुता पश्यतः स्थान्तु रामस्य समीपे हृदयप्रियाम् जनवाद भयात्राज्ञो बभूव हृदयं विधा सीतामुत्पलपत्राक्षिम् नीरकुञ्जितमूर्धजाम् अवदयद्वै वरारोहाम् मध्ये वानर रक्षताम् यत् कर्तव्यम् मनुष्येण धर्षणां प्रति मार्जत तत्कृतम् रावणम् हत्वा मयेदम् मानकाङ्क्षिण निर्जिता जीवलोकस्य तपसः भावितात्मन अगत्येन दुराधर्षा मुनिना दक्षिणे अधिक् विदितश्चास्तु भद्रम् ते योऽयं रणपरिश्रमः सुतेर्ण सुहृदाम् वीर्यान् न मया कृतः रक्षता तु मया वृत्तम् अपवादम् च सर्वतः प्रख्यातस्यात्मवंशस्य जङ्गं च परिमार्जत प्राप्त चारित्रसन्देहा मम प्रतिमुख स्थितः दीपो नेत्रा तुलस्येव प्रतिकूलासि मे दृढाय तद्गच्छत्वानुजान्येद्य यथेष्टं जनकात्मजे एतादृश दिशो भद्रे कार्यम् अस्ति न मे श्रियं परघ्रोषिताम् तेजस्वी पुनराद्यात् सुहृ लोभेन चेत् तथा रावणाङ्कः परिक्षितां दृष्टां दृष्टेण चक्षुषः कथं तां पुनरा दद्याम् कुलम् यदर्थं निर्जितामेतं सोऽयम् आसादितो मया नास्ति मे तद्दद्य व्याहृतं भद्रे मयैतकृतबुद्धिनः लक्ष्मणैवाथ भरते कुरु बुद्धिं यथा सुखम् शत्रुघ्नैवाथ सुग्रीवे राक्षसे वा विभीषणे निवेशय मनसि यथा वा सुखमात्मना दहे त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् स्मर्षेत चिरं सीते स्वगृहे पर्यवस्थितां ततः प्रियार्ह श्रवण तदा प्रियम् प्रियादुपश्रुत्य चिरस्य मानिने ममोच वाष्पं रुदति तदा भृशं गजेन्द्र हस्ताभियते वल्लरे इत्याख्ये वाल्मीकि अधिकारे युद्धकाण्डे पञ्चदशाधिकशतमः श्री सीताचंद्रपणमस्तु